ब्रह्माण्डपुराणं मध्यभागम् अध्यायम् ट्वेण्टि फैव् भार्गवचरितं वसिष्ठ उवाच ततस्तत्रयोगेन सप्रीतात्मा जगत्पदिः प्रत्यक्षमगमत्तस्य सर्वैः सहमरुद्धनैः तं दृष्ट्वा देवदेवेशम् त्रिनेत्रं चन्द्रशेखरं वृषेन्द्रवाहनं शम्भुं भूतकोडि समन्वितं ससम्भ्रमं समुद्धाय हर्षेणाकुलोचनः प्रणाममकरोद्भक्र्या शर्वाय भुवि भार्गवः उद्धायोद्धाय देवेशं प्रणम्य शिरसा सकृत् कृताञ्जलि पुडो रामस्तुष्टावच जगत्पदिं राम उवाच नमस्ते देवदेवेश नमस्ते परमेश्वर नमस्ते जगदोनाथ नमस्ते त्रिपुरान्तक नमस्ते सकलाध्यक्ष नमस्ते भक्तवत्सल नमस्ते सर्वभूदेश नमस्ते वृषभध्वज नमस्ते सकलाधीश नमस्ते करुणाकर नमस्ते सकलावास नमस्ते नीललोहित नमः सकलदेवारिगणनाशाय शूलिने कपालिने नमस्तुभ्यं सर्वलोकैकपालिने श्मशानवासिने नित्यं नमः कैलासवासिने नमोऽस्तु पाशिने तुभ्यं, का तुभ्यं कालकूढविषाशिने विभवे विभव मरवंदय प्रभव स्वयंभुव नमो किल जगत्कर्म साक्षिभूताय शमस्त्रिपथाफन भाष्य गर्धंधुमौलिने महाभोगींद्र हा शिवाय परमात्मने। भस्मसंच्छन्नदेहाय चक्षुषे कपर्दिने नमस्तुभ्यं मन्थकासुरमर्दिने त्रिपुरध्वंसिने दक्षयज्ञविध्वंसिने नमः काश्मीर गिरिजाकुजकाश्मीरविरञ्जितमहोरसे महादेवाय महते नमस्ते कृत्तिवासे योगिध्ये यस्वरूपाय शिवाय चिन्त्यते जसे स्वभक्तहृदयाम्भोजकर्णिकामध्यवर्तिने सकलागमसिद्धान्तसाररूपाय ते नमः नमो निखिलयोगेन्द्रबोधनाय मृतात्मने शङ्करायखिलव्याप्तमहिम्ने परमात्मने नमः शर्वाय शान्ताय ब्रह्मणे विश्वरूपिणे आदिमध्यान्तहीनाय नित्याय व्यक्तमूर्तये व्यक्त व्यक्ताव्यक्तस्वरूपाय स्थूलसूक्ष्मात्मने नमः नमो वेद्याय वेदान्तवेद्याय विश्वविज्ञानरूपिणे नमः सुरासुरश्रेणिमौलिपुष्पार्चिताङ्घ्रये श्रीकण्ठाय जगद्धात्रे लोककर्त्रे नमो नमः रजो गुणात्मने तोभ्यम विश्वसृष्टि विधाने हिण्यगर्भा हराय जगदाद नमो विश्वात्मने दिव्या विश्वात्म लोकस्थिदिव्यािणे सत्विज्ञानूपा पराय प्रत्यगात्मने। तमोगुण विकारा जगत्संहारिणे क्लृपातेद्रूपा पराक निका नि सदसदात्मने बुद्धिबुद्धि प्रबोधा बुद्धिंद्रियिणे वस्वादीमु साध्यरुद्राश्विभेदः जन्माया भिन्नमदयो देवास्तस्मै नमो नमः अविकारमजं नित्यं सूक्ष्मरूपमनौपमं तव यत्तोगिनोऽपि सदा मलाः त्वामविज्ञाय दुर्ज्ञेयं सम्यद्ब्रह्मादयोऽपि हि संसरन्ति भवे नूनं न तत् कर्मात्मकाश्चिरं यावन्नोपैधिचरणौ सवाज्ञानविखातिनः तावद्भ्रमदिसंसारे पण्डितो चेतनोऽपि वा स एव दक्षः स कृती स मुनिः स भवतश्चरणं भोजे येन बुद्धिस्थिरीकृता सुसूक्ष्मत्वेन गहनः सद्भावस्ते त्रयीमयः विदुषामपि मूढेन समया ज्ञायते कथम् अशब्दगोजरत्वेन महिं स्तोमप्यनलं सम्यक् वा जडधीर्यतः तस्मादज्ञानदोवापि मया भक्र्यैव संस्तुतः प्रीतश्च भव देवेश ननुत्वं त्वं भक्तवत्सलः वसिष्ठ उवाच यदि स्तुतस्तदा तेन भक्र्या रामेण शङ्करः मेकगम्भीरया वाच तमुवाच हसन्निव भगवानुवाच रामाहं सुप्रसन्नोऽस्मि शौर्यं शालितया तव तपःसा मयि भग्र्या च स्तोत्रेण च विशेषतः वरं वरय तस्मात् त्वं यद्यदिच्छति चेदसा तुभ्यम् तत्तदशेषेण दास्याम्यहमशेषतः वसिष्ठ उवाच इत्युक्तो देवदेवेन तं प्रणम्य भृगुद्वह कृताञ्जलिपुरो भूत्वा राजन्निदमुवाच यदि देवप्रसन्नस्त्वं वारर्हेस्मि च यद्यहं भवद तदभीप्सामि हेदुमस्त्राण्यशेषतः अस्त्रे शस्त्रे च शस्त्रे च चा न भवेद भवेद् लोकेषु मां रणे जेदा न भवेत्त्वत्प्रसादः वसिष्ठ उवाच तथेत्युक्त्वा तदशम्भुरस्त्र शस्त्राण्यशेषतः ददौ रामाय सुप्रीदसमद्राणि क्रमान् नृप सप्रयोगं ससंहारमस्त्रग्रामं चतुर्विधं प्रसादाभिमुखो रामं ग्राहयामास शङ्करः असङ्गवेगं शुभ्राश्वम् सुध्वजं च रथोत्तमं यिषुधि चाक्षयशरौ ददौ रामाय शङ्करः अभेद्यमजरं दिव्यं दृढज्यं विजयं धनुः सर्वशास्त्रसखं चित्रं कवचं महाधनं महाधनम् अजयत्वं च युद्धेषु शौर्यं चाप्रतिमम्भुवि स्वेच्छया धारणे शाक्तिं प्राणाञ्च नराधिपख्यातिं च बीजमेत्रेण तन्नाम्ना सर्वलौकिकीं तपःप्रभावं च महत्प्रददौ भार्गवाय सः भक्तिचात्मनिरामाय दत्त्वा राजन्यथोचितां सहितसकलैर्भूतैश्चामरैश्चन्द्रशेखरः तेनैव वपुषा वा शम्भुः क्षिप्रमन्दरधारः धा कृतकृत्यस्ततो लब्ध्वा सर्वमभीप्सितम् अदृश्यदाङ्गदे सर्वे महोदरमुवाचः महोदरमदर्थे त्वमिदं सर्वमशेषतः रथचापादिकं तावत् परिरक्षितुमर्हसि यदा कृत्यं ममैतेन तदानीं त्वं मया स्मृतः रर्थचापादिकं सर्वं प्रहिणु त्वम् मदन्तिकं वसिष्ठ उवाच तदेत्युक्त्वा गदे तस्मिन् भृगुवर्यो महोदरे कृदकृत्यो गुरुजनं द्रष्टुं गन्तुमि येष सः गच्छन्नद्ध तदा सौध हिमाद्रिवनगहुवरे विवेश कन्दरं रामो भाविकर्मप्रचोदितः स तत्र ददृशे बालं धृतप्राणमनुधृतं व्याघ्रेण विप्रतनयं रुदन्तं भीदभीदवत् दृष्ट्वानुकम्पहृतयस्तत्परित्राणकादरः तिष्ठतिष्ठेदित्तं व्याघ्रम् वदन्नुच्चैरथान्वयाद तमनुद्रुत्यवेगेन वेगेन चिरादिव भृगुद्वह आससाधवने घोरं शार्दूलमधिभीषणं व्याघ्रेणानुधृतः सोऽपि स्तः प्राणभयातुरः रामोऽपि क्रोधरक्ताक्षो विप्रपुत्रपरीप्सया तृणमूलं समादाय कुशास्त्रेणाभ्यमन्त्रयद् तावत्तरक्षोर्बलवानाद्रवत्पदिदं द्विजं दृष्ट्वा नानादसुभृशं रोदसी कम्बयन्निव दग्ध्वा त्वस्त्राग्निना व्याघ्रं प्रहरन्तं नकाङ्कुरैः आकृतव्रणमेवाशुमोक्षयामा शतं द्विजं सोऽपि ब्रह्माग्निर्दग्धदेह पाप्मा नभस्थले गान्धर्वं वपुरास्थाय राममाखेदि सादरं विप्रशापेन भो पूर्वा मं प्राप्तस्तरक्षुतां गच्छामि मोचेतशापात्वया मधुनादिवं इत्युक्त्वादु इत्युक्त्वा गदे तस्मिन् रामो वेगेन विस्मितः पदिदं द्विजपुत्रं तं कृपया व्यपपद्यद मा भैरेवं वदन्वाणीमाराधेवद्विजात्मजं परमृषत्तदङ्कानि शनैरुज्जीवयन् नृप रामेणोद्धापितश्चैवं स ददोन्मील्यलोचने विलोकयन् ददर्शाग्रे भृगुश्रेष्ठमवस्थितम् भस्मीकृतं च शार्दूलं दृष्ट्वा विस्मयमागतः गतभीरासकस्त्वम्भो गद कथं वेह समागतः केन वायं निकन्तुं मामुद्यो भस्मसात्कृतः तरक्षुर्भीषणाकारसाक्षान्मृत्युरिवापरः हयसम्मूढमनमोममाद्यापि महामदे हदेपि तस्मिन्नखिल पान्ति वै तन्मया दिशः त्वामेव मन्ये सकलं पिधा मादा सुदृग्गुरुः परमापदमापन्नं त्वं मां समुपजीवयन् आसीन्मुनिवरः कश्चित् चान्दो नाम महातपः पुत्रस्तस्या स्मितीर्थार्थी शालग्राममयाशिषन् तस्मात् सम्प्रस्थितशैलं दिदृक्षुर्गन्धमादनं नाना मुनिगणैर्जुष्टं पुण्यं बदरिकाश्रमम् गन्दुकामोपहायाहं पन्थानं तु हिमाचले प्रविशन् गहनं रम्यं प्रदेशालोकनाकुलम् दिश्यं प्राचीं समुद्दिश्य क्रोश्यमात्रमया शिष्यं ततोदिष्टवशेनाहं प्राद्रवं भयपीडितः पदितश्च भूमे भूयो भूमेरुद्धापिदोऽधुना पित्रेव नितरां पुत्रः दयालुना इत्येष मम वृत्तान्तः सा कल्ये नोदितस्तव वसिष्ठ उवाच यदि पृष्टस्तदा तेन स्ववृत्तान्तमशेषतः कथयामास रामस्तस्मै यथा क्रमं ततस्तौ प्रीतिसंयुक्तौ कथयन्तौ परस्परं स्थित्वा नाधिचिरं कालमध गन्तुमियेषसः अन्वीयमानस्त्यनाद रामस्तस्मात् गुहामुखाद निष्क्रम्या वसतं पित्रो सम्प्रतस्ते मुदान्वितः अकृतव्रणयेवासव्याघ्रेण भुविपादितः रामेण रक्षितश्चाभूद्यस्माद्याघ्रं विनिघ्नता तस्मात्तदेव नामास्य बभूवप्रथितं भुवि विप्रपुत्रस्य राजेन्द्र तदेतत्सो कृतव्रणः तदा प्रभृति रामस्य छायेवादपगाभुवि बभूव मित्रमत्यर्थं सर्वावस्तासु पार्थिव सत्तेनानुगतो राजन भृगो रासाद्यसन्निधिं दृष्ट्वा ख्यादिं च सोऽभ्येत्य विनयेनाभ्यवादयत् सदाभ्यां प्रियमाणाभ्यामाशीर्भिरभिनन्दितः दिनानि कदि कदिचित्तत्र न्यवसत्तत्प्रियेप्सया ततस्तयोरनुमदे श्यवनस्य महामुनेः आश्रमं प्रदिचक्राम शिष्यसंखै समावृतं नियन्त्रितान्धकरणं तं च सं शान्तमानसं सुकन्या चापि तद्भार्यामवन्तद महामनाः ताभ्यां च प्रेतियुक्ताभ्यां रामसमभिनन्दितः और्वाश्रमं समापेदे द्रष्टुकामस्तपोनिधिम् तं चाभिवाद्यमेधावी तेन च प्रतिनन्दितः उवास तत्र तत्प्रीत्या दिनानि कदिचिन्नृपविसृष्टस्तेन शनकैर्ृचीकभवनं मुदा प्रतस्ते भार्गवश्रीमानकृतव्रणसंयुधः अवन्तदपि दुःपित्रोर्नत्वापादौ पृथक् पृथक् तौ च तं नृप संकर्षाच्चाशिषा प्रत्यनन्तदा पृष्टश्च अनुक्रमाद स्थित्वा दिनानि कदिचेत्तपि तदनुज्ञया जगामावसधं पित्रोर्मुदा परमयायुधः अभ्येत्य पितरौ अवंतद अवन्दतयोः पादौ यथावद् भृगुनन्दनपाद प्रणामावनदं समुद्धाप्यजसादरं आश्लिष्य नेत्रसलिलैर्नन्दन्तौ पर्यशिञ्चताम् आशीर्भिरभिनद्याङ्गे समारोप्य सुहुर्मुखं विक्षन्तौ तस्य चाङ्कानि अपृच्छताञ्च तौ रामं कलेनैदावदात् किं कृतं पुत्रको वायं कुत्र वा त्वमुपस्थितः कथं सः सका सकाशे त्वमास्थितो वात्रवागतः त्वयेतदखिलं वत्स कथ्यदां तद्यमावयोः युधि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे अर्जुनो तृतीय उपोद्धातपादेऽर्जुनोपाख्याने भार्गवचरिते पञ्चविंशतितमोऽध्यायः ओ